अथैकोन त्रिंशः सर्गः तथागताम् ताम् व्यथितामनिन्दिताम् यपेत हर्षाम् परिदीनमानसा शुभाम् निमित्तानि शुभानि वेजिरे नरं श्रिया जुष्टमिवोपजीविनः तस्याः शुभम् वाममरालपक्ष्मराजीवृतम् कृष्ण विशालशुक्लम् स्पन्दतैकम् नयनम् सुकेष्यामीनाहतम् पद्ममिवाभिताम्रम् भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्य काला गुरुचन्दनार्हः अनुत्तमेणाध्युषितः प्रियेण प्रस्पन्दमानः पुनरुरस्या रामम् पुरस्तात् स्थितमाच चक्षे शुभम् पुनर्हेम समान वर्णमीषद्रजोऽध्वस्तमि वामलाक्ष्याः वासस्थिता याः वाता तपक्लान्तमिव प्रणष्टम् वर्षेण बीजम् प्रति सञ्जहर्ष तस्याः पुनर्बिम्ब फलाधरोष्ठम् स्वक्षिभ्रुके शान्तमरालपक्ष्मा राहोर्मुखा चन्द्र प्रमुक्तः सावीत शोकाव्यपनीत अशोभतार्यावदनेन शुक्ले शीतांशुनारात्रिरिवोदितेन इत्यार्षे श्रीमद् रामायणे वाल्मीकिये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः